माधव हरे मुरारे शम्भो शिवेशिशेखरशूरपाणि दामोदराच्युतजनार्दन वासुदेव याज्ञाभटाय इति सन्तत मामनन्दी गङ्गाधरान्धकरिपोहरनीलकण्ठ वैकुण्ठकैटभरिपोकमठाब्जपाणि भूतेशखण्ड परशो मृडचण्डिकेश त्याज्या भटाय इति सन्तत मामनन्ति विष्णो नृसिंहमधुसूदनचक्रपाणे गौरीपते नारायणा सुरनि बर्हणशार्गपाणे त्याज्या भटाय इति सन्ततमामनन्ति मृत्युञ्जयोग्रविषमे क्षणकामशत्रो श्रीकान्तपीतवसनाम्बुदनीलशैल्ये ईशानकृतिवसनत्रिदशैकनाथ त्याज्या भटाय इति सन्ततमामनन्ति लक्ष्मीपदे मधुरिपोपुरुषोत्तमाद्य श्रीकण्ठदिग्वसनशान्तपिनाकपाणि आनन्दकन्दधरणीधर पद्मनाभ त्याज्या भटा य इति सन्ततमामनन्ति सर्वेश्वर त्रिपुरसूदनदेवदेव ब्रह्मण्यदेवगरुड्वज शङ्खपाणि त्र्यक्षोरगाभरणबालमृगाङ्कमौले त्याज्या भटाय इति सन्तत भूते शमन्मथ रिपो प्रमथाधिनाथ चणूरमर्दन हृषिकपदे मुरारेत्याज्या भटाय इति सन्ततमामनन्ति शूरिङ्गिरीशरजनीशकलावतं कंसप्रणाशन सनातनकेशिनाश ना भर्क त्र भवभूतपते पुरारे त्याज्या भटाय इति सन्तत मामनन्ति गोपीपते यदुपते वसुदेवसूनो कर्पूरगौरवृषभद्वजभारनेत्र गोवर्धनो धरणधर्मधुरीण गोप ज्या भटा य इति सन्ततमामनन्ति स्थाणो त्रिलोचन पिनाकधर स्मरारे कृष्णानिरुद्धकमलाकरकल्मषारे विश्वेश्वरत्रिपथ गार्द्रज्वटा कलाप्याज्या भटा य इति सन्ततमामनन्ति अष्टोत्तराधिकशतेन सुचारूणाम्नाम् सन्दर्भितां ललितरत्नकरङ्गकेन सन्नायकाम् दृढगुणां निज कण्ठगतां बुर्यादि मां सृज मम समयं न गणवोचतु इत्थं विजेन्द्रनिजभृत्यगणां सदैव संशिक्षये दवनिगांस हि धर्मराज अन्येऽपि ये हरिहराङ्कधराधरायां ते दूरतः पुनरः परिवर्जनीयाः यो धर्मराजरचितां दलितप्रबन्धाम् नामावलिं सकलकल्मषबीजहन्त्री धीरोद्र कौस्तुभृत नित्यं जपेत्स्तनरसम् अपि वेत् स मातुः रम्याम् शिवशर्मा प्रहर्षवक्त्रः पुरतु ददर्श